श्रीमन श्रीमन्महाभारतम् आदिपर्वणि बकवधपर्वणि बकवधे शततमो अध्यायः वैशंपायन उवाच ततः स नदित्वा नदित्वाभैरवं रवम् शैलराजप्रतीकाशो गता सुरभवद्बकः तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः निष्पपातगृहाद्राजन्सहैव परिचारिभिः भी। तान् भीतान् विगतज्ञानान् भीम प्रहरतां वरः सान्त्वयामासबलवान्समये च न्यवेशयत् न हिंस्यामानुषा भूयो युष्माभिरिति कर्हिचित् हिंसतां हि वधः शीघ्रमेवमेव भवेदिति तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत एवमस्त्विति तं प्राहुर्जगृहुः समयञ्च तं ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत नगरे प्रत्यदृश्यन्तनरैर्नगरवासिभिः ततो भीमस्तमादाय गतासु पुरुषादकं द्वारदेशे विनिक्षिप्य जगामानुपलक्षितः दृष्ट्वा भीमबलोद्भूतं बकं विनिहतं तदा ज्ञातयोऽस्य भयोद्विग्नाः प्रतिजग्मुस्ततस्ततः ततः भीमस्तं हत्वा गत्वा ब्राह्मणवेश्मतत् आचचक्षे यथावृत्तं राज्ञः सर्वमशेषतः ततो नगरात कल्यमेवतु दद्रुशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम् तमद्रिकूटसदृशम् विनिकीर्णम् भयानकम् दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः एकचक्राम् ततो गत्वा प्रवृत्तिम् प्रददुः पुरे ततः सहस्रशोराजन् राजन्नरानगरवासिनः तत्रा जग्मुर्बकं द्रष्टुं सस्त्री वृद्धकुमारकाः ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वातिमानुषम् दैवतान्यर्चयाञ्चक्रुः सर्व सर्वयेव विशाम्पते ततः प्रगणयामासु कस्य वारोध्य भोजने सर्वयेवते चागम्यम विप्रप्रछु सर्वेवृ स पांडवान रक्षाण पांडवान्वाचनागरा सर्वानिद विप्रषभा